रत्नैः कल्पितमानसंहिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनं जाति चम्पकबिल्वपत्ररचितम् पुष्पं च धूपं तथा दीपं दयानिधे पशुपते हृत्कल्पितं गृह्यताम् सौवर्णे नवरत्नखण्डरचिते पात्रे घितं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकं शाकानामयुतं जलं रुचिकलं कर्पूरखण्डोज्ज्वलं तामूलं मनसा विरचितं भक् प्रभो स्वीकुरु छत्रम् चामरयोर्युगम् यजनकम् चादर्शकम् निर्मलम् वीणाभेरिमृदङ्गकाहलकला गीतं च नित्यं तथा साशाङ्गं प्रणति स्तुतिर्बहुविधा ये मया सङ्कल्पेन समर्पितं तव विभो पूजां बिहाणप्रभो सहचराः प्राणाः शरीरं गृहम् पूजा ते विषयोपभोगरचना निद्रासमाधिस्थिति सञ्चारपदयो प्रदक्षिणविधि स्तोत्राणि सर्वा विरोग्य यत्कर्म करोमि तत् शम्भोतवाराधनम् करचरणकृतं वाक् कायजं कर्मजं वा श्रवणनयनजं वा मानसं वा पराधं विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो श्रीमहादेव शम्भो महादेव शम्भो